इन्द्रकृष्टैर्वर्तयन्ति धान्यैर्ये च नदीमुखैः समुद्रनिष्कुटे जाताः पारे सिन्धु च मानवाः ते अजाविकं गोहिरण्यं खरोष्ट्रं फलजं मधु प्राग्ज्योतिषाधिपः शूरो म्लेच्छानामधिपो बली यवनैः सहितो राजा भगदत्तो महारथः आजानेयान हयाञ्छिघ्रानादायानिल ब्रह्मसः बलिञ्चकृत्स्नमादाय द्वारितिष्ठति वारितः अश्मसारमयं भाण्डं शुद्धदन्तत्सरूपनसीन् प्राज्ञ्योतिषाधिपो दत्त्वा भगदत्तो व्रजत्तदा